चतुस्त्रिंशोऽध्यायः वैशम्पायन उवाच स एव मुक्तस्तु महानुभावः सत्यव्रतो भीमसेनेन राजा अजातशत्रुस्तदनन्तरम् वैधैर्यान्वितो वाक्यमिदम्बभाषे युधिष्ठिर उवाच असंशयम् भारत सत्यमेतद्यन्मान्तुदन्वाक्यशल्यैक्षिणोषि न त्वाम् विगर्हे प्रतिकूलमेव ममानयाधिव्यसनौ वा आगात् अहम् ह्यक्षानन्वपद्यम् पुत्रात् तन्माम् शटः किवः प्रत्यदेबीत् सुयोधनार्थम् सुबलस्य पुत्रः महामायश्चकुनिः स्पर्वति यः सभा मध्ये प्रवपन्नक्षपूगान् अमायिनम् मायया प्रत्यजयिषी ततोऽपश्यम् वृजिनम् भीमसेन अक्षांश्च दृष्ट्वा शकुनेर्यथावत् कामानुकूलानयुजो युजश्च शक्यो नियन्तुमभविष्यदात्मा मन्युस्तु नतेवाचो ते वाचो भीमसेनाभ्यसूये मन्ये तथा तद्भवितव्यमासीत् स नो राजाधृतराष्ट्रस्य पुत्रो न्यपातयद्व्यसने राज्यमिच्छन् दास्यञ्च नोऽगमयद्भीमसेन यत्राभवच्छरणम् द्रौपदीनः त्वम् चापि तद्वेत्थ धनञ्जयश्च पुनर्दूतायागतानाम् सभान्नः यन्मा पुत्र एकग्रहार्थम् भरतानाम् समक्षम् वने समा द्वादश विदितमजातशत्रो अथा चाविदितञ्चरेथाः सर्वैः सह भ्रातृभिश्चद्मगूढः त्वाम् चेच्छ्रुत्वा तात तथाचरन्तमवभोत्स्यन्ते भरतानाञ्चराश्च अन्यांश्चरेथास्तावतोब्दांस्तथा त्वम् निश्चित्य तत्प्रतिजानीहि पार्थ